अथ तृतीयाष्टके अष्टमप्रश्नः प्रारम्भः स्वाग्रहण्येष्ट्यायजते इमाञ्जनसागो सङ्ग्रन्थानीति द्वादशारत्न्यदर्शना भवति द्वादशमासाः संवत्सरः संवत्सरमेवावृन्धे रोञ्जीभवति ऊर्ध्वयुञ्जाः पूर्जमेवावरुन्धे चित्रा नक्षत्रम् भवति चित्रम् वा एतत् कर्म यदस्वमेधः समृद्ध्यै पुण्यनामदे वैजनमध्यवश्यति पुण्यामेव तेन कीर्तिमभिजयति अपदाति ऋद्वयः समापहन्त्या लोकस्य समष्टि केचिश्मश्रु भवते न खा न वा सपरिधत्ते आत्मनापहत्य काचिन्यत्वापवसति स्वर्गस्य लोकस्य गुप्ती स्वर्गस्य लोकस्य समष्टि चतुष्टय भवन्ति चतुष् समृद्धिता भवन्ति इक्ष्वान् यदेव तदवृन्दे आसुब्रह्मो धनम् वचति रत एव तद्दधाति चतुशरावो भवति ेव ज्योतिवरन्ते यदािष्यते तस्मिन् दर्नान्य विजापतिमेव रेतसा समर्थयति तर्भमयी रशना भवति बहु वा एष कुशलो मेद्यमुपगच्छति यदश्वः पवित्रयी रशना भवति पुरात्येवैनम् मेध्यमालभते अश्वस्य वा आलब्धस्य महिमादक्रामत् स महत्विजः प्राविशत तन्महत्विजाम् महत्यत्वम् यन्महत्विजः प्राश्नन्ति महिमानमेवास्मिन् अश्वस्य वा आलब्धस्य रेदमुदक्रामद ओ ब्रह्मणे देवेभ्यः प्रजापतये प्रतिक्रोच्यां बध्नातिवृश्यते यत्प्रतिक्रोच्यादेव ब्रह्मन्नम्स्यामि देवेभ्यो प्रजापतये ब्रह्म ब्रह्मण एव देवेभ्यः प्रजापतयेच्याश्वं वेद्यम् बध्नादिभ्यावृश्यते भवति देवस्य प्रसवैनामादत्ते अश्विनो अश्विनो हि देवानाम् धर्यो आस्तास्ताभ्यामित्याह इति एषूनाम् यत्संवत्सरः तस्य त्रयोदशो मासो विष्टवम् ऋषभ एष यज्ञामेधः यथा वा शुभस्य विष्टवम् एवमेतस्य विष्ठवम् त्रयोदशवर्तिगोरशनायामुपादधाति यथा शुभस्य विष्टपको सग्रस्करोतिवास्मिन् दधाति तया देवास्तुतमापभोवृत्याः भूतिमेवोपावर्तते अतश्चरमारभन्तीत्या सत्यम् वा रतम् सत्येनैव मृतेनारभते अविदाधत्याः तस्मात् स्वमे सर्वाणि भूतान्यभिभवति अवनमधीत्याः भोमानमेव गन्दाधीत्या गन्धारमेवनं करोति धर्ताधीत्याहतारमेवनं करोति सोऽवानरीत्या पत्नामेवैनं वैश्वानरेजुहोति सप्रद्याः ेनपोषायित्वेत्याह आश्रमेतामाशास्ते स्वगात्वा देवेभ्य इत्याह देवेभ्य एवेन करोति स्वाहापते त्यो वा श्वः यस्या एव देवताया पितृजायान्त्यमेवास्मात्मानम् विरुहद योजमभ्यैति वर्णै विश्वानम् चिद्रक्षम् प्रसौति अरोमत्तः परश्वे दर्शनश्च रक्षस्य प्रहन्ति श्वैवात्मा प्रारु एतमेश्वमेधेन आत्मानमेवास्माक्षमापयति ऐषिकौ दोहो भवति आयुर्वाशीकाः आयुरेवास्मिन् दधति अमृतम् वा ऐशीकाः अमृतमेवास्मिन् दधति केदशशाखो सम्बद्धा भवति अक्षुयो निर्वाश्व अक्षुयो वेदसः सा देवेदे देवां ैः सहाप्रत्यङ्गिशम् अनेन ैः सह ब्रह्माश्वति सह होदाम् रोक्षति अनेनाश्वे नेष्ट्वायगो राजायैवायैमाशैरन्यायै बहुकायैरासपूरुषायै पुष्टिमत्यै अहोराय स्पोषायै राजा स्त्रिमा वैहोताः होमासु निद्रामण्यः होम् नैवास्मिन् भोमानम् दधातिष्ठम् रोक्षति भवन्ति चतस्रोदिषः इक्ष्वेव प्रतिष्ठति यथा एवं वा एतदस्वस्य स्कन्दति स्वर्गस्य लोकस्य ेन सोमाहेत्याः सोमा एवेन जहोति सवित्रे स्वाहेत्याह सवित्रयवेन् जहोति सरस्वत्ये स्वाहेत्याह सरस्वत्या एवम् ज्योति कूष्णे स्वाहेत्याः कूष्ण एवम् जहोति बृहस्पते ए स्वाहेत्याः बृहस्पते एवहेत्याः अभ्य एवम् आयवे स्वाहेत्याः आयव एव स्वाहेत्याः पित्रा एवम् ज्योति वरुणाविस्वाहेत्याः वरुणा एवम् ज्योति जलाभ्य एवम् देवताभ्यो जहोति दश दश समारम् ज्योति अन्नम् विराड् जीवान्नाद्यन्दे प्रभाव वायुर्वै देवानामाधुस्वारसारितमः जलमेवास्मिन् ददाति तस्मादश्व पुरुषोणाम् देवेभ्य इत्युत्तरः विश्वे वै देवादेवानातमाः विश एवास्मिन् दधादि तस्मादश्वपुशूनां देवेभ्यस्ते ददा देवानामपसितमाः अपजिषमेवास्मिन् दधाति तस्मादश्व पशूनामपशितमः देवेभ्येत्युपरिष्टाद् सर्वे वै देवात्विषुन्दः रश्विनः विशिमेवाश्विनहरो दधादि तस्मादश्व पशूनान्विषमानः रश्विनः न्ति त्रिप्रायाभ्यो देवताभ्यो विप्रोक्षति अश्वेवान्वायताः विश्वेभ्योभ्यै प्रोक्षति ेवता एवास्मिन्न स्कन्दति हितावहं ज्ञायते तथा खलवाहो हरव्यायेव अत्रमावेन प्राणस्मेधागोदक्त्वा स्थापयति रश्वजिरदानजोहति अस्मात् क्रोधज्ञायदि हितवः एनेहदायेत्नां कदादि नदस्य स्वेदनेयदि स्क्यानायत्रेण नक्तार्क्ने राह्यति यहोति साहित्यिकायष्ट्या अप्रसताः छटकर्दा आहवनीयै शुद्रदानजोहति आयतनाएवास्यौतिर्ज्योदि इति तथा सुगृदेवः पशुभिति अविस्वर्गम् लोकम् यदि तपाबीयान् भवति अष्टाचत्वारि अष्टाचत्वारिक्षराधिपतिः इयम् वै माता असौ पिता आभ्यामेवै ददाति अश्वासयोसीत्या तस्मादश्व सर्वान् तस्मादश्व सर्वेषाम् गच्छतिश्रेष्ठनोति एवम् नाम्यामित्रो सङ्गत्यामेव भवतः त्याः एवदि ईश्वरो वा हे हृस्वान्धनमागच्छति राष्ट्रादेव दे ेवताक्रामन्न सा दी। दीक्षा एतानि वैश्वदेवन्यवश्यजहोलेष्वज्योति दीक्षामेव तैर्यमानोबन्धे सप्तज्योतिक्रामन् अन्वहन् ज्योति अन्वहमेव दीक्षामग्रन्धे त्रिवेश्वदेवानि भवति चत्वारिसम्पद्यदेवानि भवति एकविंशतिंश एषालोकः तद्दैव्यक्षक्रम् साः तद्ब्रथस्य विष्णुम् तत्स्वाराद्योकाः लोकाणाक्रामन्ति सप्ताहं ेवर्णाहुः सर्वमेवाप्नोति तस्यामेव कृतिष्ठति प्रजापि रमेधमपि किञ्चनोदेच्छत् ई ईश्व देवान्येवोदैच्छन् ज्योति यज्ञस्योद्य स्वाहादिवाहा स्वाहा स्वाहा स्वाहा स्वाहेति प्राजाभृते हरित्य स्वाहा स्वाहेत्याः हिमादिभिः तस्या देवी प्रतिष्ठायोक्षते सरस्वती स्वाहा सरस्वतीवाहा सरस्वतीवाहेत्याः सरस्वती आजीवै प्रवत्या स्वाहा भूष्णे नरञ्जिरा स्वाहेत्याः शिशोमी भूषः तुष्ट्रे स्वाहा तृष्ट्रे पुनरूपा स्वाहेत्याः तु पशूनाम् तथो रूपे देवेनक्षते विष्णवे स्वाहा विष्णवेन स्वाहेत्याः विज्ञो मे विष्णो यज्ञादेवी गायत्रम् प्रातश्रवणम् प्रातश्रवणा देवीनम् गायत्र्यावनमेव तेनाप्नोति त्रयि चन्दः सत्रप्रसवित्रे एकादशमालां मध्येने एकादश अक्षरा त्रिष्टुभ त्रिष्टुभ माध्यन्दिरो जवनम माध्यन्दिना देवेन भूतोमना त्रिष्टवछन्द साधनमिमिते तथा माध्यन्दिरमेव सवन्देना आप्नोति त्रिष्टुभ चन्दः चतुरादत्रेन पादसिकपालमbranes मासकारक्षरादिगति त्यागतुमुदेशलोम हृदयसर्वादेवेन देवतः चन्दो साधनमिमिते स्वाहेरेवैति प्रजापतिलाय अश्वरूपम् यदाश्वत्तो प्रजो भवति स्व एव महारथो जायतामित्याह राजन्य एव दौर्यम् हिमान् दधाति अस्माजन्येश्वरो महारथो जायिता दौद्धे हेन्द धेन्वा वेगमयो दधाति तस्मात् पुरादोग् न जायता आशुसरित्याह अश्व एव जन् दधाति अस्मात् पुराशुरस्वजायतारन्धिर्योषेत्याह योषित्येव रूपम् दधाति तस्मात् श्रीमतिप्रियाभावका जिष्णुरज्येष्ठा इत्याह आहवे तत्र जिष्णोरज्येष्ठा जायते यत्रैतेन यज्ञे नजन्ते समे यो समाच्चवापमान् हास्य वीरोमित्याह आत्र यजमानस्य वीरोजायिते यत्रैतेन यज्ञेन निकामे निकामे न पर्त्यन्या वर्षत्यकामे निकामे हवि तत्र पर्त्यन्या वर्षति यत्रैतेन यज्ञे नजन्तेषधे प्रक्ष्युन्तामित्याह हवीरतोषधे पच्यन्ते दे यत्रैतेन यज्ञेन कल्पदामित्याहे हवीरेवेभ्यो यज्ञानश्वमेधमदत्ता तन् देवा ब्रुवन्न देशभावयज्ञः यदश्वमेधा अप्येव नोत्रास्त्री तेभ्य एतानन्द होमान् प्रायच्छदोदेवीणात् होमान् ज्योति देवानेवतायैरूपम् इन्मधुना ज्योति महती तण्डुले ज्योति वा एतद्रूपम् यत्तण्डुलाः यत्तण्डुले ज्योति सर्वमेकप्रीणाति पृथगेद्योति रुद्राणाम्ब एतद्रूपम् यत्पृथगाः यत्पृथगेद्योति रुद्रानेवत् प्रीणाति आदिद्योति आदित्यानाम्ब एतद्रूपम् तल्लाजाःलाजीद्योति आदित्यानेव प्रीणाति कलम्बै विश्वेषाम्बा एतद्देवानाम् रूपम् तत्करम्बाः यत्किलम्बैः ज्योति विश्वानेवदवान् वीणाति नक्षत्राणां वा एत प्रजापतेर्वा एत प्रजापतिप्रीणाति सर्वासां वा एतद्देवतानागोरूपम् यन्मसोऽस्यानि यन्मसोऽस्य ज्योति सर्वा एव ज्योति प्रियना विना विते एते एव देवा अश्वस्वगाणाः समदत्तो हे प्रियमित्रो दै ज्योति अश्वसेवाङ्गान् सन्तादाति उषानां ज्योति चक्षदा विराट विराट पुस्स्यान्नात्यस्य अवृथि प्रजापितश्वमेधमृजता तद्दुष्टकृमं रक्षागस्य दिगागम् सम्नल सहयनान् प्रकारकृतं महामानवसदः आनुहोद देवेसयनात्रक्षारस्य वाहनं नक्तक्रोभाञ्जोदि श्रीरवदेवावृन्दे इत्यादि वयस्यावृद्धिहोति रक्षाद्यो वा आद्यम् भगत एवास्य प्राण्यधादिवाहेत्याः अस्मिन्नेव लोके प्रतिष्ठति वा व्याघुस्वाहेत्याः लोके प्रतिष्ठति द्वयोरेव लोकयोः प्रतिष्ठति अस्मिकृष्टहेत्याः शदायुर्वै पुरुषवीर्य आयुरेव वीर्यवरुन्धे सहस्रा स्वाहेत्याः आयुर्वै सहस्रम् आयुरैवावृन्दे सर्वस्मै स्वाहेत्याः वृन्दे प्रजापतिमार्वाणि भूतानि इति एकस्मै स्वाहेत्याः प्रजापतिर्वा एकः तमेवाप्नोति एकस्मै स्वाहा स्वाहेत्यपि पूर्वमाहोति अपि पूर्वमेव स्वर्तं लोकमेदि एवोत्तरं ज्योति ेव स्वर्गम् लोकमेदि सन्दनम् स्वर्गस्य लोकस्य आयुरेव आयुर्वे सहस्रयुरेव वृन्दे नहिताः नीताः प्रीता स्वाहेत्याः लोकाः लोकानुवृन्दे प्रबुधाः वाग्वाद्भुम् आयुरमेवा वृन्दे स्वाहेत्याः यो हि वाचो एव स्वाहेत्याः आप्नोति अन्धाय स्वाहेत्याः अन्धमेवाप्नोति प्रार्धाः प्रार्धमेवाप्नोति वृषदे स्वाहा वीष्टि स्वाहेत्याः रात्रिवाहर्विष्टि अहोरात्रे एवावृन्दे त्रयोर्व्योहायर्मात्रा प्रभो कृतेष्वनामाय जहोति भयरेवर्नामधे स्वाहे स्वाहा एवहेति पूर्व दीक्षा जगोति पूर्व एव तिशं धम्रामति क्रामदिवाहा एकविंशति सर्वैदेव लोकाः स्वर्गस्य स्वर्गस्य लोकस्याप्ती ङ्गहोमान् ज्योति अङ्गे अङ्गे वी पुरुषस्य ञेता स्वाहा कृष्णा स्वाहान्ति मूलेभ्योन्याः एव वनस्पतिभ्यस्वाहे च वनस्पति होमान् ज्योति आरण्यस्यान्नाद्यस्यावृद्धि मेषस्वापचते प्राणा वैदेवाेवावृन्दे कूप्याभ्युस्वाहास्वाहे त्रिवागोति यदेवाद्भ्यो नञ्जायते तदवृन्धे अंभागुंसि ज्योति अयं वै लोकोऽभागुंसि तस्य वृदयः तद्यज्योति यदं भागुंसि ज्योति इममेव नांसा इत्युच्छति हादित्याधिपदयः सौर्यं जन्धे स्वर्गस्य लोकस्य सन्तति प्रमुक्ति स्वर्गस्य लोकस्य प्रमुक्ति दुर्ये स्वाहाय स्वाहा त्रिलोकमेव तैर्ज मानो वृन्दे अस्मात्त्वा यत् स्वर्गस्य लोकस्य समष्टिप्राणतो इति महिमानो ज्योति स्वर्गो वै लोकमहा स्वर्गमेवृन्दे ब्राह्मणस्तानि मानो वृन्दे न्दप्रथमम् इत्यस्वीयम् सर्वस्याः आप्नोति सर्वम् स्वाहाति वर्गस्य लोकस्य नमष्टि एकयो भवन्ति खायाम् पशूनाम् वर्ध्यन्ति पैताश्वः याक्षस्य अवस्यो न वाश्वः स्तदो वेददा स एवस्योना वद्यति रूपे लुक्राम्यां पशोमि यजन्ति आरोग्येश्वरं धारिन्ति चोनाम जर्ति अग्रं नन्दनं लभन्ते रदन््याम सुलन्ति आत्मना भक्ते राजदालम निष्टम मेनादि भ्रणाध्याया भति औद्रवावृधा वरदः पुण्यसयन्धस्य वर्धते भ्रणाध्यामेवासनाद भत्य पुण्येन गन्धेन षट्वाः एकविवंशति लोकाः इत्येकवि स्वर्गस्य लोकस्य समष्टि शतमंशरो भवन्ति शदायः पुरुषेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति सर्वं वा ेवनावृन्दे एकविंशवति एकविंशस्तोंशतिर्योपाः सोमस्फुरन्धेरन् स्यादित्याहो द्वादशस्तो वृन्दे यद्दशयोपा भवन्ति दशाक्षर विराड् विराड् विराजैवान् एकादश स्थल एवा श्री एवेन्तेन तदाहो स्या द्वादश सोम एकादशरूपाः एकविंश एवाक्यस्याविद्याहो एकविंशस्सोमः एकविंशतिर्यपाः यथा पृष्टिभिर्याति तादृशमेधे धिस्रः कपुभवेद कपुर्धराज्ञाम् भवति एकविंशो दिर्भवति एकविंशस्सोमः एकविंशतिर्यपाः एतावाश्वमेधे तिस्रः कपुभः एवं वेद त्रो वामेधे त्रीणि शीर्षाणि वेदा शिरोहराज्ञाम् एकविंशो एकविंशतिर्यपाः एक वेदानि वाश्वमेधेत्रीणि शीर्षाणि एवं वेद शिरोहराज्ञाम् भवति देवा वास्वमेधे भगवाने स्वर्गल् लोकल्लप्राजानन्न एवमेव स्वर्गस्य लोकस्य समष्टिः किं करोति सा मयित्वारुन्धे प्रतिष्ठति ज्योतिर्भि ेञ्जन्ति तस्मादाखम् भीष्मम् भावकम् आग्नेयस्ता पूर्वाग्निमेव तस्मात् पूर्वाग्निस्तास्थापयन्ति ीवो बाहुवो बाहुवो रेव वीर्यम् धत्ते तस्मात्राजन्यो बाहुबलीभावग्रोलोक्त शोः ृष्ठामेवैताम् कृते अथो इयम् वै धाता तस्यामेव प्रतिष्ठति शौर्यम् बलक्षम् पृच्छेधमेव तम् कृते तस्माज्जयन् भये प्रजा अभिरशयन्ति इति तृतीयाष्टके अष्टमः प्रश्नः समाप्तः